मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं फिफ्टीन् श्री श्रीगणेशाय नमः मुद्गल उवाच सुरधो नाम राजर्षिप्रधानैर्नयवर्जितैः बलिष्ठैपीडितोऽत्यन्तं राज्यं त्यक्त्वा वनं ययौ तत्र मुनिवरेणैवोपदिष्टशक्तिमा भजद तस्याश्च कृपया राजा समर्थप्रबभूवः स्वराज्यं प्राप्य राजर्षिश्चक्रे तद्धर्मसंयुधः अभज अभजच्छक्रिमत्यन्तं भावयुक्तेन चेदसा तदो मृदः पुनःसोऽपि सावनिश्च बभूवः मनोर्भानुसुदो दक्ष सर्वमान्य उदारधीः पूर्वसंस्कारयोगेन शक्तिभक्तो बभूवः वनेगत्वा गत्वा महाशक्तिं पूजयामास नित्यदा उपोषणसमयुक्तस्तदाप तप उत्तमम् ध्यात्वा हृदि महामायां न वार्णजपकारकः महात्म्यमपठन्नित्यं चक्रिया भक्तिसमन्विदः एवं वर्षशदे पूर्णे महासदी अन्ते तत्तपसायुक्तं ज्ञानमार्गपरायणं ज्ञात्वा लम्बोदरस्तत्र वरदादात् समाययौ हृदि तस्य स्थितं ध्यानं शक्रेस्तत्र गणेश्वरः शुशुभे रक्तवर्णाभो दृष्ट्वा तं सोऽपि विस्मितः तदशक्रिस्वरूपं स ददर्श पुनरञ्चसा पुनर्लम्बोदरं देवं पुनः शक्रियुदं प्रभुं वामाङ्गे संस्थितां शक्त्रिं हावभावसमन्वितां भक्तियुक् ं गणेशस्य ततो दिविस्मितो भवद लम्बोदरार्थजं दक्षचक्रेश्च कृपया महद ज्ञानं प्रकडरूपं तद् बभूव हृदये मनोः तदो मनुर्विशेषेण भक्तियुक्तो हृदि विचारमकरोत्पूर्णं तच्छृणुत्वं प्रजापदे लम्बोदरस्वयं शक्तिशक्तिर्लम्बोदरात्मिका शक्तिर्लम्बोदरस्यैव नान्तरं विद्यते कदा शक्तेर्वामाङ्गसम्भूदा दक्षिणाङ्गाद्गणेश्वरः तयोरभेद भावे यद्ब्रह्मस्वानन्द संज्ञकं क्रीडार्थं भक्तरक्षार्थं देहाकृतिधरा विमौ बभूवधूर्नसन्देहस्ततः सर्वमिदं बभौ एवं विचारयुक्तः स मनुर्यावत् प्रदापवान् तावत्तौ बहिरायातौ वरदौ च प्रजापदे हृदि संस्थौ विस्मितः सक्वगदौ शक्तिविघ्नपौ पुनर्ध्यानबलेनैव चिन्तयामास भूमिपः ततस्तं तावू चतुश्च वरं वरय सुव्रत तपसा भक्तिभावेन तुष्टौ दास्यावहे मुने तयोर्वचनमाकर्ण्योन्मील्य पश्यद्वहिर्मनुः दृष्ट्वा चक्रियुदम् देवं प्रणनाम मुदायुधः पूजयित्वा विधानेन तुष्टावभक्त्रिसंयुतः प्रणम्यतौ पुनर्देवौ कृत्वा करपुटं विधे सावर्निरुवाच नमस्ते गणनाधायै नमस्ते गणपालक चतुर्बाहुधरायैव चतुर्बाहुधरायते अनाद्यायै ह्यनाद्याय परेशायै परात्मने भक्तविघ्नहरायै ते भक्तविघ्नहराय भक्त च हे रम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः लम्बोदरस्वरूपायै नमो लम्बोदराय ते नानारूपधरायैव नानारूपधराय च नमो नमो महादेव्यै देवाधिपतये नमः गजवक्त्रधरायै ते गजवक्त्रधराय च शूर्पकणस्वरूपायै शूर्पकर्णाय ते नमः एकदन्तधरायै चैकदन्तरूपिणे नमः मायामोहरायैव मोहहर्त्रे नमो नमः स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने परस्वादिधरायै च परस्वादिधराय ते नमः सर्वप्रबोधायै नमः सर्वप्रबोधकमायिभ्यो मोहधात्र्यैते मायिभ्यो मोहदाय च धुण्डिराज्ञ्यै नमस्तुभ्यं धुण्डिराजायते नमः वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः सर्वादिपूज्यकायै च सर्वादिपूज्यकायते नमस्ते सर्वपूज्यायै सर्वपूज्यायते नमः अनन्दखेलकारिण्यै ह्यनन्दखेलकारिणे नमो नमो महाशक्ते नमः शक्तिधरायते नानाभेदपरायै ते नानाभेदमयाय च नमो नमः परेशायै परेशाय नमो नमः या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् अज्ञानेन महाभागौ स्त्रीपुंभावः प्रदर्श्यदे यत्र वेदादयो योगिनो देवेशा विसिस्मिरे तत्र स्तोदुं चकोऽहम् तावल्पज्ञानप्रधारकः भवतोर्दर्शनेनैव बोधयुक्दोहमञ्चसा तेन स्तु दौ गणाध्यक्षौ योगशान्तिप्रदायकौ प्रयच्छदं महायोगमधुना मे नमाम्यहं भक्तिं च भवतोर्मे सुदृढां दातुमर्हथः इत्युक्त्वा दण्डवद्भूमौ पपादपदयोस्तयोः मनुस्तौ हर्षसंयुक्तावूचतुस्थं महीपदिं शक्तिविनायकावूचतुः शान्तियोगमहाभागलभसे योगसेवया भक्तिं दृढां च नौपादे सदादित्यकुमारक भुक्त्वा मन्वन्तरं पूर्णं यशस्ताप्य जगत्रये अन्ते स्वानन्दको भूत्वा ब्रह्मभूतो भविष्यसि त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् पठते शृण्वदे चैव भविष्यदिनसंशयः यवमुक्त्वा गणाध्यक्षावन्तर्धानम् प्रचक्रतुः मनुस्वगृहमागत्या भजत्तौ भावसंयुधः मन्वन्तरसमाभुक्त्वा ब्रह्मभूतो बभूवः गाणपत्यो महाभागसावर्णिप्रथितो भवद मयावतारकधितो नाम्ना विनायकः सर्वसिद्धिप्रदःपूर्णो लम्बोदरस्य भक्तिदः मायया मोहितानां वै भिन्ना शक्तिप्रदृश्यते या शक्तिः स स्वयं दक्ष न संशयः स्त्रीपुम्भावमहिमाया त्यक्तव्या योगसेवया तदा लम्बोदरप्राप्तो योगिभिर्ब्रह्मनायकः केजिच्चक्रिं वदन्ध्येनं केजिल्लम्बोदरम् परम् भक्त्याभिन्नं स्वरुच्यर्थम् जानीह्यत्र न संशयः अस्सत् स्वानन्दरूपा वै शक्तिर्वेदे प्रकीर्तिता स लम्बोदर आख्यातो गणेशस्यावतारभृद शक्तिविनाय पश्यैदच्चरिदम् यशृणो दिवा पठदे भविधा तस्य भुक्तिर्मुक्तिर्न संशयः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्दले महापुराणे पञ्चमे खण्डे लम्बोदरजरिते शक्तिविनायकमाहात्म्ये ॐ